हरि ओम् श्रीगणेशाय नमः अथ शिवपुराणमात्मे चतुर्थोऽध्यायः चञ्चुलाया सद्गतिः ब्राह्मण उवाच दृष्ट्याकाले प्रबुद्धा शिवान् गृहतो वराम् इमांशेव पुराणस्य श्रुत्वा वैराग्यवत्कथाम् मा पैशे द्विजपत्नी त्वम् शिवश्च शरणम् भजे शिवानुगृहतः सर्वं पापं सद्यो विनश्यति पक्ष्यामि ते परं समन्वितं भविष्यति गतिर्येन सर्वदा ते सत्कथा श्रवणादेव जाता ते मृथि दृशि पश्चात्तापां दृता शुद्धा वैराग्यं विषयेषु च पश्चात्तापकृता पापकृताम् पापानां निष्कृतिपरा सर्वेषाम् वर्णितम् पश्चात्तापेनैव शुद्धि प्रायश्चित्तम् करोति स यथोपदिष्टम् तद्भिः सर्वपापविशोधनम् प्रायश्चित्तमधिकृत्य विधिवन् निर्भयपमान् स्वयाति स्वगतिम् प्राय पश्चात्तापेन संशय एतच्छिव पुराणस्य कथा श्रवणतो यथा यते चित्तशुद्धिः न तथा नैव उपायतः शोध्यमानम् दर्पणम् हि यथा भवति निर्मलम् तथैतत् कथया चेतो संशय विशुद्धे चेत देशैव नृणाम् तिष्ठति साम्बिकः ततो याति विशुद्धात्मा साम्ब शम्भो परम्बलम् अतः सर्वस्य वर्गस्य एतत् कथा साधनम् मतम् एतदर्थम् महदेवो निर्मते स्वाग्रहादि कथया सिद्ध्यति ज्ञानम् अनया गिर्यापते ध्यानाज्ञानम् परम् तस्मात् कैवल्यम् भवति ध्रुवम् असिद्ध शङ्कर ध्यान कथामेव शृणोति स्वप्राप्यान्य भवे ध्यानम् शम्भोर्यास्ति पराङ्गतिम् एतत्कथाश्रवणस्य कृत्वा ध्यानम् उमापते ते पश्चात्तापि न पाप बहवो सिद्धिमागतः सर्वेषाम् श्रेयसाम् बीजम् तत्कथाश्रवणम् नृणाम् यथावत्म समाराध्यम् भवबन्धदापहम् कथाश्रवणतश्चम्भो मननाश्च ततो निध्यास नतश्चैव चित्तशुद्धिर्भवत्यलम् ो भक्ति महेशस्य पुत्राभ्याम् भवति ध्रुवम् तदनुग्रहतो दिव्या ततो मुक्तेन संशय तद्वी न माया ज्ञेयो मायाबन्धनसक्तधि संसारबन्धनान्नैव मुक्तो भवति स ध्रुवम् अतो हि द्विजपत्नीत्वम् विषयेभ्यो निवृत्तधि कृणु शम्भो कथाम् चैताम् भक्त्या परमपावनिम् श्रिण्ड सत्कता में शंकर शुद्धि चेतस्ते तुक्ति वापस जायसे शिव पेतस निर्मल वै एक जन्म न मुक्ति सत्यम सत्यम बदम सूत उचितुक्ता सेजवरो वरश्री तूषं बभूव शुद्धात्मा शिवध्यान पाण अथ बिन्दकपत्नी सा चञ्चुला प्रसन्न इत्युक्ता तेन विप्रेण समासीत् बाष्पलोचना अपातारम् द्विजेन्द्रस्य पादयो तस्य ऋच्छुला साञ्जलि सा च कृतास्मीत्यभाषते अथ सोत्थाय सा तङ्का साञ्जलिर्गद्गदाक्षरम् तम् उवाच महा चैवं द्वियम् चञ्चलो उवाच ब्रह्मश्चैव पर स्वामिन् धन्यत्वम् परमार्थद्रु पुरोपकारनिरतो वर्णनीय सुसाधुषु उद्धरोद्धर मां साधु पतन्तीणवे श्रुत्वायां सुकथां चैवी पुराजृम्भिताम् विरक्तधीयं दाता विषयेभ्यश्च सर्वदा सुश्रद्धा पुराण श्रवणे धुना श्रुत उवाच इत्युक्साञ्जलि सा वै सम्प्राप्य तदनुग्रहम् सत्पुराणम् श्रुत्रुकामा अति तत्सेवने रता अथ चैव वरो विप्र तस्मिन् देव स्थले सुरी सत्कथाम् श्रावयामास तत्पुराणस्य सां श्रियम् तस्मिन् भाषेत्रे तस्माद् कथां शिव पुराण्यश्रावय मोत्तमाम् भक्तिज्ञानविरागाणां वर्धिनीं मुक्तिदायिनीं बहुव सुकृता श्रुत्वा तां सत्कथां परां सद्गुरो तस्य कृपया शुद्धचित्ता च सा द्रुतम् शिवानुग्रह शम्भुरूप ध्यानम् इत्थं तद्गुरुमाश्रित्य सा प्राप्त तद्यो मुहुः मुहुः शम्भो चिदानन्दमयमपु स्नात्वा तीर्थजले नित्यम् चाबल्कुलधारिणी भस्मद्धूलितसर्वाङ्गी रुद्राक्ष कृतभूषण शिवनाम च पासक्ता वाक्यतामितभोजन गुरुपदिष्ट मार्गेण सा शिवम् समतोषे एवम् कुर्वन्त्या ध्यानमुत्तमम् बहुकालो व्यथीयाय शम्भो तत्रैव शौनक अथ पूर्णेन भक्ति समन्विता समुत्सेहं सम् अनायासेन चञ्चलाय विमानं द्रुतमायान्तं प्रेषितम् त्रिपुरारिणा दिव्यं स गणयुक्तम् नानाशोभा समन्वितम् अद्य तत्र समारूढा महेश नुचरेर्व शिव प्रीं सद्यो ध्वसर्वमलाच दिव्यरूपधरा दिव्या दिव्यावयवचालिनी दिव्या चन्द्रार्धशेखर घोरी विलसय दिव्यभूषण गत्वा तत्र महदेवं साधदर्श त्रिलोचनम् विष्णुब्रह्मादिवे देवै सेव्यमानं सनासनम् गणेशभृङ्गी नन्देश वीरभद्रेश्वरादिभिः उपाशमानं सद्भक्त्या कोटि सूर्य समप्रभम् नीलग्रीवम् पञ्चवक्त्रम् त्यम्बकम् चन्द्रशेखरम् वामाङ्गे बिभ्रतम् गौरीम् विद्युत्पुञ्ज समप्रभाम् कर्पूरगौनम् गौरीशम् सर्वालङ्कार धारिणम् चितभस्मलदेहम् सितवस्त्रम् दृष्ट्वैवं शङ्करम् नारी सा ममोतातिचञ्चला सुसम्भ्रमान् महाप्रीता प्रणनाम पुनः पुनः साञ्जलि सा मुदा प्रेम्णा सन्तुष्टा च विनीतका आनन्दाश्रु जलेर्युक्ता रोमः च समान्विता अथ सा वै करुणीया पार्वत्या शङ्करेण च धर्मानीतोपकण्ठम् हि सुदृष्ट्या विलोकिता पार्वत्या सा कृता प्रीत्या स्वसखी दिव्यरूपिणी दिव्यसौख्यान्विता तत्र चञ्चुल बिन्दुवप्रिया तस्मिन् लोके परानन्द धनज्योतिषिशाकृते लब्धा निवासमचलम् लेपे सुखम् अनाहतम् इति श्रीकान्देशो पुराणमात्मे चञ्चला सद्गतिवर्णनम् नाम चतुर्थोऽध्यायः श्रीगौरी शङ्करार्पणमस्तु